मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं सेवन् तत्त्वकृतस्तुतिवर्णनम् श्रीगणेशाय नमः पार्वत्युवाच श्रुत्वेदं त्वन्मुखाम्भोजाद्धर्शेतस्य जायत पुनर्वदस्वमे स्वामिन गणराज पुनर्वदस्व मे स्वामिन् गणराजकथामृतम् कथानां च रहस्यं यत्तदेवैतन्नसंशयः पुनादिप्राश्निकं श्रोदृन् वक्तारम्भक्तिदश्रुतं प्रकृतिपुरुषश्चोभौ कथं सृष्टिं प्रचक्रदुः अन्तर्हिते निजानन्दे गणेशे स्वेच्छया विभौ मुद्गल उवाच पार्वतीवदनं श्रुत्वा प्रहृष्टः शङ्करो ब्रवीद कथां रसयुतां रम्यां पावनानां च पावनीं शङ्कर उवाच शृणु देवि प्रवक्ष्यामि गणनाथकथां शुभां धन्यास्ति साधराजा दास प्रेमा विघ्ननाशिनी अन्तर्हिदे गणेशे च प्रकृतिपुरुषस्तथा सामर्थ्येन युतौ जातौ परस्परमनोनुगौ तपसावरदानेन मोहयामास तत्क्षणाद पुरुषं प्रकृतिस वै नानाभावार्थदर्शिनी नानाविभवयुक्तां तां दृष्ट्वा पुरुषसत्तमः मोक्षितः पूर्णभावेन तदधीनो भवत् सदा संवीक्षिदा महामाया पुरुषेण महात्मना हावभावयुता तत्र संस्थिता भक्तिभावदः तस्यां सत्तात्मकं वीर्यं पुरुषेण प्रकाशकं निक्षिप्तं सहसा देवी तेन सा गर्भवत्यभूत् स गर्भो ववृधे तत्र तेजसा संवृतः महदा कालयोगेन पूर्णो जातः प्रतापवान् समये सुषुवे सादं पुत्रं त्यजोमयं परं तस्य नामा भवल्लोके महानित्यभिविश्रुतम् अंतस्तु यत् देवी देवि सर्वान् तत्परं लोके शुचमहत्तत्त्वं ज्ञातव्यं तत्समाधिना सर्वेषामादिभूतोऽयं महानात्मा भवत्प्रभुः ज्येष्ठोऽयं तत्त्वजादीनां हृदि तेषां समास्थितः महता च ततसृष्टं यदहङ्काररूपकं स एव त्रिविधो जातो भिन्नमूर्तिः प्रतापवान् अहं सर्वत्र तिष्ठामि मदाधारमिदं स्मृतं तेनाहङ्करनामास सदा हङ्करणात् शिवे स एव बाह्यभावेन स्थित सर्वत्र सर्वराट् इच्छितं महदा यद्वै तत्कर्तुं सुसमाहितः त्रिविधोऽसौ गुणैस्तत्र तन्निबोधन्मयि सात्त्विको राजसश्चैव तामस कथ्यते बुधैः तेनाहङ्करणस्यापितृशक्तित्वं समागतं सात्विकी ज्ञानशक्तिश्च तया भावप्रबुध्यते राजसीया क्रियाशक्तिस्तया कार्यं प्रवर्तते तामसी द्रव्य शक्तिर्या देहरूपा प्रकथ्यते तत्रादौ तामसी शाकृतिप्रेरिता विश्वयोनिना निर्ममे शब्दरूपं सा तेनाकाशं विनिर्मितम् आकाशेन स्पर्श एवं सर्वसिद्धये। स्पर्शेन निर्मिदो वायुर्महाबलयुधप्रभुः वायुना निर्मितं रूपं तेजोरूपेण निर्मितं तेजसश्च रसोत्पत्ती रसादाभो विनिसृताः अद्भिश्च निर्मिदो गन्धो गन्धात् भूमिरजा यदा तमोगुणमयी सृष्टिरेषा जाता महाद्भुता तन्मात्रा भूतसर्गश्च पञ्चपञ्चात्मकस्वराट पञ्चभूतात्मको देहः सर्वत्रैव प्रदृश्यते दे। तदोराजसशक्रिया च पञ्चभूतमयानि वै इन्द्रियाणि प्रसृष्टानि क्रियारूपाणि तानि वै पञ्चज्ञानेन्द्रियाण्यासोर्ज्ञानरूपधराणि च जिह्वाचक्षुस्त्व च नास कर्णश्चैवात्र पञ्चमः कर्मेन्द्रियाणि पञ्चैव हस्तौ पादौ गुतं च वाक् लिङ्गं पञ्चममत्रैव वा येभिः सञ्जायते क्रिया पंच प्राणस्त प्राणो व्यान स्वानक उदान्च सनो वै राज पंच वायव सप्तु विभागा क्रिियूपा उदाहृता सृष्टि राज सात्विक्या मायया देवा इन्द्रियाणां विनिर्मिताः दिशो वायुश्च वरुणोऽश्विनौ सूर्यप्रकीर्तितः एतात् ज्ञानेन्द्रियाणां च देवताः परिकीर्तिताः अग्निर्विष्णुप्रजापाद इन्द्रो मित्रश्च पञ्चमः ये, देवधा ये, आदि देवा ये धा कर्मेन्द्रििया वै दवाता परकर्ति सात्वी सृष्टिता दशदस्वू ये ते तत्वस्वूपर्ति यहा ज्ञानहीनत्वदोषेण सृष्टिं कर्तुं न च क्षमाः तेभ्यो ज्ञानप्रदानार्थमुपदेश्यं प्रजक्रदुः भव। मन्त्रमेकाक्षरं परम् अनुष्ठानविधायुक्तं दददुर्गणपश्य तौ ते तत्रैव सर्वे ते सर्वे तपश्चक्रुर्महद्भृश्यं तेन सन्तुष्टदां यादो गणेशो गणवल्लभः प्रत्यक्षतां ययौ समीपे संस्थितो महान् तम् दृष्ट्वा हर्षिताः सर्वे देवास्तोत्रम् प्रचक्रिरे तस्त्वान्यूचुः नमस्ते वक्रतुण्डाय भक्त्रसंरक्षकाय च सर्वाधीशाय सर्वाय गणानां पतये नमः अव्यक्ताव्यक्तरूपाय सत्यासत्याय ते नमः समाय विषमायैव विघ्नेशाय नमो नमः आत्मनेनात्मने तुभ्यं निर्गुणाय गुणात्मने नामरूपधरायैव द्वाभ्यां हीनायते नमः अनन्दोदरसंस्थाय नानाभोगकराय च भोगहीनाय सर्वत्र स्वानन्दपदये नमः मायाद्धाराय वैतुभ्यं मायाहीनायते नमः मायिनां मोहकाराय सर्वज्ञाय च ते नमः सर्वसिद्धिधरायैव सिद्धीनां पतये नमः सिद्धिहीनाय सिद्धाय सिद्धानां पतये नमः जगन्मयाय वैतुभ्यं जगद्धीनाय ते नमः कर्मणां फलदात्रे च कर्मरूपायते नमः कर्महीनायते ज्ञानज्ञानदात्रे नमो नमः ज्ञानिनां ज्ञानकर्त्रे च ज्ञानहीनायते नमः चतुर्विधरायैव चतुर्विधमयाय च च चतुर्विधविहीनाय वेद्यायते नमः पाकुशराय दंता भयधराय चुर्भुजा चा। वै शूर्प्रुतलाय च चा। महदे चैकदंताय महता महीयसे लखव लघु लघूना लाखवे नम कजवक्त्राय देवाय ब्रह्मणे ब्रह्मरूपिणे ब्रह्मणस्पदये चैव ब्रह्मदात्रे नमो नमः किमस्माभिस्तुधिकार्यापारगुणराशये नमो नमो गणेशाय त्वन्तुष्टो भव सर्वदा कृताञ्जलिपुडा सर्वे ऋषयश्च स्थिदाः पुरः तान् दृष्ट्वा गणराजस्तु हृष्ठः सन् प्रत्युवाचः ॐ तत्सदिश्रीमदान्ध्ये पुराणोपनिषद्दिश्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते तत्त्वकृतस्तुतिवर्णनं नाम सप्तमोऽध्यायः ओ